उत्तरकाण्डं सर्गं तु श्रीमहादेव उवाच श्रीरामवचनं श्रुत्वा परमानन्दनिर्भरः मुनिः प्रोवाच सदसि सर्वेषां तत्र शृण्वताम् अध वित्तेश्वरो देवस्तत्र कालेन केनचित् आययौ पुष्पकारूढः पितरं द्रष्टुमञ्जसा दृष्ट्वा तं महौजसं राक्षसी पुत्रसामीप्यं गत्वा रावणमब्रवीत पुत्रपश्य धनाध्यक्षं ज्वलन्तं स्वेन तेजसा मप्येवं यथा भूयास्तथा यत्नं कुरु प्रभो तच्छ्रुत्वा रावणोरोषात्प्रतिज्ञामकरोद्धृतम् धनदेन समो वापि ह्यधिको वाचिरेणतु भविष्याम्यम्ब मां पश्य सन्तापं त्यज सुव्रते इत्युक्त्वा दुष्करं कर्तुं तपःस दशकन्धरः अगमत्फलसिद्ध्यर्धम् गोकर्णम् तु सहानुजः स्वं स्वं नियममास्ताय भ्रादरस्ते तपो महद आस्तिदा दुष्करं घोरं सर्वलोकैकतापनं दशवर्षसहस्राणि कुम्भकर्णो करोत्तपः विभीषणोऽपि धर्मात्मा सत्यधर्मपरायणः पञ्चवर्षसहस्राणि पादेनैकेन ना तस्तिवान् दिव्यवर्षसहस्रं तु निराहारो दशाननः पूर्णे वर्षसहस्रे तु शीर्षमग्नौ जुहावसः वर्ष र्षसहस्राणी नव चक्रमुहु। अधवर्ष तचक्रमु अठ वर्षसहस्रम दु दशमें दशम शिषेकाम से धर्माशाध प्रजापति वत्सत्सदश्रीव प्रीदस्मीभ्यषत वरं वरय दास्यामि यत्ते मनसि काङ्क्षितं दशग्रीवोऽपि तच्छ्रुत्वा प्रहृष्टेनान्तरात्मना अमरत्वम् वृणोमीश वरदो यदि मे भवान् सुपर्णनागयक्षाणां देवतानां तथा अवध्यत्वं तु देहि तृणभूता हि मानुषाः तथा स्विधिप्रजाध्यक्षः पुनराः दशाननम् अग्नौ हुतानि यानि ते सुरपुङ्कव भविष्यन्ति यथा पूर्वमक्षयाणि च सप्तम एवमुक्त्वा तदो रामदशग्रेवं प्रजापतिः विभीषणमुवाचेदं प्रणतं भक्तवत्सलः विभीषण त्वया वत्स कृतं धर्मार्थमुत्तमं तपस्तदो वरं वत्स वृणीष्वाभिमतं हितम् विभीषण तम नाचलर्वाक्यमब्रवीद दैविर्धद शाश्वती मारोचय मे सर्वदा। तद प्रजापि विभीषण मधाब्रवीद वत्सम धर्मशील तथैव च भविष्यसि अयाचितोऽपिते दास्येह्यमरत्वं कुम्भकर्णमधोवाच वरं वरय सुव्रत वाण्या व्याप्तो धतम्प्राह दिनमेकं तु भोजनं एवमस्त्विदितं प्राहब्रह्मा दृष्ट्वा दिवौकसः सरस्वती च तद्वक्त्रान्निर्गदा प्रययौ दिवं कुम्भकर्णस्तु दुष्टात्मा चिन्तयामास दुःखितः निर्गदमहो अनभिप्रेतमेवा सै कि निर्गतमहो विधि सुमारंस्ता ज्ञावा पौराचरा पाताप्राया प्रहस्तादिन्व दशग्रीवं परिष्वज्यवचनं चेदमब्रवीद दिष्ट्या ते पुत्रसंवृत्तो वाञ्छितो मे मनोरथः यद्भयाच्च वयं लङ्कां त्यक्त्वा यादारसातलं तद्गदम्नो महाबाहो महद्विष्णुकृतं भयम् अस्माभिः पूर्वमुषिता लङ्केयं धनदेन ते भ्रात्राक्रान्तामिदानीं त्वं प्रत्यानेतुमिहार्हसि साम्नवाध बलेनापि राज्ञां बन्धुकुतः इत्युक्तो रावणः प्राह नार्हस्येवं प्रभाषितुं वित्तेशो गुरुरस्माकमेवं श्रुत्वा तमब्रवीद प्रहस्तः प्रश्रितं वाक्यं रावणं दशकन्धरं शृणु रावणयत्नेन नैवं त्वम् वक्तुमर्हसि नाधीता राजधर्मास्ते नीतिशास्त्रं तथैव च शूराणां न हि सौभ्रात्रं शृणो मे वदतः प्रभो कश्यपश्यसुता देव राक्षसाश्च महाबलाः परस्परमयुध्यं त्यक्त्वा सौहृदमायुधैः नैवेदानीन्तनं राजन् वैरं देवैरनुष्ठितं प्रहस्तस्य वचश्रुत्वा दशग्रीवो दुरात्मनः तथेधि क्रोधताम्राक्षस् त्रिकूडाचलमन्वगाद दूतं प्रहस्तं सम्प्रेष्य निष्कास्य धनदेश्वरं लङ्ामाक्रम्य स जीवै राक्षसैः सुखमास्थितः धनदः पितृवाक्येन त्यक्त्वा लङ्गां महायशाः गत्वा कैलासशिखरम् तपसातोषयच्छिवं तेन सख्यमनुप्राप्य तेनैव परिपालितः अलकां तत्र निर्ममे विश्वकर्मणा दिक्पालत्वं चकारात्र शिवेन परिपालितः रावणो राक्षसैः सार्धमभिषिक्तः सहानुजैः राज्यं चकारासुराणां त्रिलोकीं बाधयन् खलः भगिनीं कालखञ्जाय ददौ विकटरूपिणीं व्युद्युज्जिह्वाय नाम्ना सौ महामायी निशाचरः तदो मयो विश्वकर्मा राक्षसानां दिदे सुतः सुदां मन्दोदरीं नाम्ना ददौ लोकैकसुन्दरीं रावणाय पुनशक्रिममोघां प्रीतमानसः वैरोचनस्य दौहित्रीं वृत्रज्वालेति विश्रुतां स्वयं दत्तामुदवहत्कुम्भकर्णाय रावणः गन्धर्वराजस्य सुतां शैलूषस्य महात्मनः विभीषणस्य भार्यार्थे धर्मज्ञां समुदावहद सरमां नाम सुभगां सर्वलक्षणसंयुतां तदो मन्दोदरीपुत्रं मेखनादमजीजनद जादमात्रस्तु यो नादं मेखवत्प्रमुमोचः तद सर्वे ब्रुवन्मेख नादोऽयमिति चासकृत कुम्भकर्णस्ततः प्राह बाधते प्रभो ततश्च कारयामास गुहां दीर्घां सुविस्तरां तत्र सुस्वापमूढात्मा कुम्भकर्णो विघूर्णितः निद्रिदे कुम्भकर्णे तु रावणो लोकरावणः ब्राह्मणान् ऋषिमुख्यांश्च देवदानव किन्नरान् देवश्रियो मनुष्यांश्च निजघ्ने समहोरगान। धनदोऽपि तथा श्रुत्वा रावणस्याक्रमं प्रभुः अधर्मं मा कुरुष्वेदि दूदवाक्यैर्न्यवारयद तथ क्रुद्धो दशग्रीवो जगाम धनदालयं विनिर्जित्य धनाध्यक्षं जोत्तम पुष् कम् तदो यमं च वरुणं निर्जित्य समरे सुरः स्वर्गलोगमकात्पूर्णं देवराजिघांसया तदो भवन्महद्युद्धमिन्द्रेण सह दैवतैः तदो रावणमभ्येत्य बबन्धत् त्रिदशेश्वरः तच्छ्रुत्वा सहसागत्य मेखनादः प्रतापवन् कृत्वा घोरं महद्युद्धं जित्वा त्रिदशपुङ्गवान् इन्द्रं गृहीत्वा बद्ध्वा सौ मेघनादो महाबलः मोचयित्वा तु पितरं गृहीत्वेन्द्रं ययौ ब्रह्मादु मोचयामास देवेन्द्रं मेखनाददः दत्त्वा वरान् बहूंस्तस्मै ब्रह्मा स्वभवनं ययौ रावणो विजयी लोकान् सर्वान् जित्वा क्रमेण तु कैलासं तोलयामास बाहुभिः परिकोपमैः तत्र नन्दीश्वरेणैवं शब्दोऽयं राक्षसेश्वरः वानरैर्मानुषैश्चैव नाशं गच्छेति कोऽपि शप्तोऽप्यगणयन्वाक्यं ययौहैहयपत्तनं तेन बद्धो दशग्रीवः पुलस्त्येन विमोचितः ततोदिबलमासाद्य जिकांसुर्हरिपुङ्गवं धृतस्तेनैव कक्षेण बालिना दशकन्धरः भ्रामयित्वाद् चतुरः समुद्रान् रावणं हरिः विसर्जयामास ततस्तेन सख्यं चकारसः रावणः परमप्रीत एवं लोकान् महाबलः चकारस्ववशे राम बुभुजे स्वयमेव तान् एवं प्रभावो राजेन्द्रदशग्रीवः सहेन्द्रजित त्वया विनिहतः सङ्ख्ये रावणो लोकरावणः मेघनादश्च निहतो लक्ष्मणेन महात्मना कुम्भकर्णश्च निहतस्त्वया पर्वतसन्निभः भवान्नारायणः साक्षाज्जगदामादिकृद्विभुः त्वत्स्वरूपमिदं सर्वम् जगत्थावरजङ्गमम् त्वन्नाभिकमलोत्पन्नो ब्रह्मालोकपितामहः अग्निस्ते मुखदो जातो वाचा सह बाहुभ्यां लोकपालौकाश्चक्षुर्भ्यां चन्द्रभास्करौ दिशश्च विदिशश्चैव कर्णाभ्यां ते समुद्धृताः प्राणात्प्राणसमुत्पन्नश्चाश्विनौ देवसत्तमौ जङ्का जानूरुजघनाद्भुवर्लोकादयो भवन् कुक्षिदेश्यात् समुत्पन्नाश्चत्वारसागरा हरि स्तनाभ्यामिन्द्रवरुणौ वालकिल्याश्च रेतसः मेढ़्रद्यमों गुदा मृत्युर्मो रुद्रस्लोचन अस्तिभ्य पर्व जाशेभ्यो मेक संहतिष्यवरो मेभ्यो नेभ्य त्वं विश्वरूपः पुरुषो मायाशक्रिसमन्वितः नानारूप इवाभासि गुणव्यतिकरे सति त्वामाश्रित्यैव विबुधा पिबन्द्यमृदमध्वरे त्वया सृष्टमिदं सर्वं विश्वं स्थावरजङ्गमम् स्वामाश्रित्यैव जीवन्ति सर्वे स्थावरजङ्गमाः त्वद्युक्तमखिलं वस्तुव्यवहारेऽपि राघव क्षीरमध्यगतं सर्पिर्यथा व्याप्याखिलम्पयः त्वद्भासा भासतेऽर्कादि न त्वं ते सर्वगम् नित्यमेगम् त्वां ज्ञानचक्षुर्विलोकयेत् नाज्ञानचक्षुस्त्वां पश्ये दन्धकृत् भास्करं यथा योगिनस्त्वां विचिन्वन्ति स्वदेहे परमेश्वरम् अदन्निरसनमुखैर्वेदशीर्षैरहर्निश्यम् त्वत्पादभ्रिलेशेन गृहीता यदि योगिनः विचिन्वन्तो हि पश्यन्ति चिन्मात्रम् त्वाम् न चान्यथा मया प्रलपितम् किञ्चित् सर्वज्ञस्य तवाग्रतः क्षन्तुमर्हसि देवेश तवानुग्रहभागहम् दिग्देशकालपरिहीनमनन्यमेकं चिन्मात्रमक्षरमजं चलनादिहीनं सर्वज्ञमीश्वरमनन्दगुणं व्युधस्तमायं भजे रघुपदिं भजदामभिन्नम् यदि श्रीमदध्यात्मरामायणे उमामहेश्वरसंवादे उत्तरकाण्ठे द्वितीयः सर्गः